अथ चत्वारिंशः सर्गः मारीचस्य तु तद्वाक्यम् शमम् युक्तम् च रावणः उक्तो न प्रतिजग्राहमर्तुकाम इवौषधम् तम् पथ्यहितवक्तारम् मारीचम् राक्षसाधिपः अब्रवीत्परुषम् वाक्यमयुक्तम् कालचोदितः दुष्कुलैतदयुक्तार्थम् मारीचमयि वाक्यम् निष्फलमत्यर्थम् बीजमुक्तमिमोऽशरे त्वद्वाक्यैर्नतुमाम् शक्यम् भेत्तुम् रामस्य संयुगे मूर्खस्य पापशीलस्य मानुषस्य विशेषतः यस्त्यक्त्वा सुहृदो राज्यम् मातरम् पितरम् तथा स्त्रीवाक्यम् प्राकृतम् श्रुत्वा वनमेकपदे गतः अवश्यन्तु तस्य संयुगे खरघातिनः णैः प्रियतरासीता हर्तव्या तव सन्निधौ एवम् मे निश्चिता बुद्धिर्हृदि मारी च विद्यते न व्यावर्तयितुम् शक्या सेन्द्रैरपि सुरासुरैः दोषम् गुणम् वा सम्पृष्टस्त्वमेवम् वक्तुमर्हसि अपायम् वा उपायम् वा कार्यस्यास्य विनिश्चये सम्पृष्टेन तु वक्तव्यम् सचिवेन विपश्चिता उद्यताजलिज्छे भूतिमात्म वाक्यमूल मृदु शुभम हितचारेण वक्त्यो युक्त वसुधा सवमर्दं यक्यम वात मुच्य नाभिनंदेत तद्राजाथी मन माना वर्जित पंचाजारय ज अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च औष्ण्यम् तथा विक्रमम् च सौम्यम् प्रसन्नता धारयन्ति महात्मानो राजानः क्षणदाचर तस्मात् सर्वा स्ववस्थासुमान्याः पूज्याश्च नित्यदा त्वम् तु धर्ममभिज्ञाय मोहमाश्रितः अभ्यागतम् तु दौरात्म्यात्परुषम् वदसीदृशम् गुणदोषौ न चात्मनिराक्षसा मयोक्तमपि चैतावत् त्वाम् प्रत्यमित विक्रम अस्मिंस्तु स भवान् कृत्ये साहाय्यम् कर्तुमर्हसि शृणु तत्कर्म वचनान् मम सौवर्णस्त्वम् मृगो भूत्वा चित्रो रजतरबिन्दुभिः आश्रमे तस्य रामस्य सीतायाः प्रमुखे चरा प्रलोभयित्वा वै यथेष्टं यथेष्टम् गन्तुमर्हसि हि मायामयम् दृष्ट्वा काञ्चनम् जातवि स्मया आनयैनमिति क्षिप्रम् रामम् वक्ष्यति मैथिली अपक्रान्ते च काकुत्स्थे दूरम् गत्वाप्युदाहर हासीते लक्ष्मणेत्येवम् रामवाक्यानुरूपकम् तच्छ्रुत्वा रामपदवीम् सीतया च प्रचोदितः अनुगच्छति संभ्रांतं सौमित्रिरपि सौहृदात् अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथा सुखम् आहरिष्यामि वैदेहीम् सहस्राक्षशीमिव एवम् कृत्वा त्विदम् कार्यम् यथेष्टम् गच्छ राक्षस राज्यस्यार्धम् प्रदास्यामि मारी गच्छ सौम्य शिवम् कार्यस्यास्य विवृद्धये अहम् त्वारगमिष्यामि सरथो दण्डकावनम् प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम् लङ्काम् प्रतिगमिष्यामि गमिष्यामि कृतकार्यः सह त्वया नो चेत्करोषि मारी च एतत्कार्यमवश्यम् मे बलादपि करिष्यसि राज्ञोऽपि प्रतिकूलस्थो न सुखमेधते आसाद्यतम् जीवितसंशयस्ते संशयस्ते मृत्युर्ध्रुवो ह्यद्य मया विरुध्यतः एतद्यथावत्परिगण्य बुद्ध्या यदत्र पथ्यम् कुरु आदिकाव्ये अरण्यकाण्डे चत्वारिंशः सर्गः